आददेन्द्रावास्यभरगद्देवेभ्यो गम्भीरमिमद्भरम् गद्य न्द्राय सो भगुं सुषुतां रसुवन्दस्पन्दं वृत्यवमिन्द्राय त्वा वृत्रग्भ्य इन्द्राय त्वा वृत्र तु इन्द्रायत्वाभिमादिग्भ्य इन्द्रायत्वा विद्यवद इन्द्राय त्वा विश्वदेव्यावदे स्वात्रास्थवत्रोत्रा मुदस्य पत्नेऽस्ता देवे देववत्र यो श्वर यस्ते सोमायाः जन्नामजाकरणितस्मैते सोमसोमायस्वाः चस्पदेवस्तवाजं वृषा कृष्णो अकुंशोऽभ्याम् प्रभस्तिभूतो देवो देवानाम् पवित्रमसि येभ्याम् भागवदिनेभ्यस्तास्ताम् कृतोमदेशस्कृतिरिक्षमन् विहि स्वाहाभवः सूर्याय देवेभ्यस्तामदे एव नयोनि प्राणायत्वा यामृहेवास्यन्दर्य मघवन् पाथि सराजः समितो यस्मान्तस्ते दधा विद्या वापृथिवी अन्तर्न्तलक्षगम् सजोषा देव न परेश्वरे स्वान्तरियामे मघवन्मादय स्वस्मासि मधुमवेर्नस्तुष्मेभ्यस्तेन्द्रियेभ्यो दिव्य पार्थिवेभ्यो मनस्त्वा पूर्वान्तरक्षम भवय देवेऽभ्यस्तामदेशेभ्येषय त्वा आवायो भोषुपनः सहस्रम् ते नियिता विश्ववारान्धो मध्यमया वियस्तदेव अभिषेको भवेयम् उपयाम गृहेतोऽसि वायवे त्वेन्द्रवायूः उपा प्रयोभिरागदमिन्दवो वा मुचन्तिः उपयाम गृहेतोधिन्द्रवादिभ्याम् वेषदेवयोः सयोधाभ्याम् त्वा अयम् वा मित्रावरुणा सुत स्वपरितावृथा न मे जयः श्रुतबृंहम् उपयाम गृहेतोऽसि मित्रावरुणाभ्याम् वैषदेयोजनायुभ्यान् त्वा या भाङ्कु नृतावती तया उभया यज्ञम् विमिक्षतम्भयाश्वभ्याम्भ्याम् त्वा प्राप्यो विमुच्य ध्यामश्विनावेहगच्छतम् अस्य सोमस्य पीतले उपयामगृहेतोऽस्यष्टिभ्यः वैषदेवयोः त्वा अयम् पेनश्चादृष्टिर्पाज्योजारमाने इममङ्गमे दोर्यस्य च श्वनविप्रामतिभेदिहन्ति उपयामगृहेतोऽपिषण्डायद्वैषदेयोजर्वेदताम् ्रत्रसा पूर्वसा विश्वचेमथाः ज्येष्ठताजम् परिदिषदकम् सुपर्वितम् प्रदेशेन व्रजनम् दोहसे गिराशम् जयन्दमनुया सुवर्धते उपयाम गृहे वा सुमर्काय द्वेषते देवादिव्येकाचशस्थ पृथिव्यामध्वेकातशस्था सुषदामजिनेकातशस्थते देवा यज्ञमिनृषोपयामगृहेज्ञपतिमभिषवना पार्हि विष्वस्त्वाम् पार्थिभिषन्वम् पार्हेन्द्रियेणैषेजोस्त्वा देवेन्द्रः त्रिपुंशत्रयश्च घनिना भ्रजन्तोऽधिमगम् रुद्रा पृथिवीम् च सचन्ते एतादशासुरा सुगम् गोमम् जिधम् भागम् सवनाय विश्वे स्यान्द्रेणो विश्वान्द्रेणो जिन्म यज्ञम् जिन्म यज्ञपतिमभिषवना पाहि विताम् पातु विषन्तम् पाहिन्द्रियभ्यस्त्वा देवेभ्यः उपयानुगृहे दोषेन्द्रायत्वा बृहद्वदेवयः पदमुक्तायु वे यत्त इन्द्रबृहद्वयत्तस्मैत्राविष्णवेय इन्द्रायत्वयुवे स्यग्नये त्वा वैश्वानराय ध्रुवाय ध्रुवक्षय ध्रुवाणाम् ध्रुवदमोच्युदानामच्युदक्षत्तमजेभेयोनयेरत्वा वैश्वानराय मधुश्च माधवश्च शुक्रश्च शुभिश्च नभश्च नभस्यश्चेतश्चोर्गश्च नभश्च नभस्यश्च तपश्च नस्यश्चोपजामगृहेतो इन्द्राग्नेऽभिर्न भोवेन अस्य पारन्थिभि वयामगृहे दोषेन्द्राग्निभ्याम् वेदेव योजेन्द्राग्निभ्यान्त्वा गो मातश्च विश्वे देवासा गता दास्वान् सदासित श्रुतम् वयाम गृहे दोषि विश्वेभ्यश्च देवेभ्य वेशदेश्वेभ्यश्च देवेभ्यः मरुत्तन्त्रम् विषभम् वा प्रधानमगवारम् शासमिन्द्रम् विश्वासाहमवसे नूतनायोग्रगुम् सहोदायत्वा मरुत्पदये निन्द्रायत्वा मरुत्पदे इन्द्रमरुत्तमयथातस्य तव प्रणेते तवशो न सम्मन्नानि वा सन्ति कमयस्तु यज्ञाः उपजाम गृहे लोहेन्द्रायत्वा मरुत्पदेषादिन्द्राय त्वा मरुत्पदे मरुत्वाघम् इन्द्रविषभोरणायभिसो मदाय आदिम् च स्मद्धोर्म्यन्तकुम् राजा च प्रतिव सुताना वया मृहे दोषेन्द्रायत्वा भरुत्पदेषन्द्रायत्वा भरुत्पदे महागम् इन्द्रो योजसा पर्जन्या वृत्तिमागम् निर्सस्य वा वृधे वयामृगिहे दोषि महेन्द्राय द्वेषदेयोर्महेन्द्रायत्वा महागम् इन्द्राचर्षणि प्रामुदर्विमर्हासहोऽभिः अस्मद्रियग्मगृहेतोऽधिमहेन्द्रायद्भैन्द्राय त्वा चेतानन्दश्च प्रचले उपयामगृहेतोस्यादित्यैर्भ्यस्त्वा जलप्रेक्षुभे निपासिजन्मनित्यसर्वनन्दैन्द्रियमातस्थामृतम् दिवी यज्ञो देवानाम् प्रत्यसुन्नमादित्या सो भवतामृयन्तः चेद्यापरि भो वित्तसत् विवस्वादिर्पीठते वामपीठस्तेन मन्दस्मदेन त्रिप्यदृप्या स्मदेयम् तर्पयिता लो या दिव्यादृष्ट्यस्त्रयात्माश्रीणामि वामभ्य वाममश्वाधिवेदिवे वामस्मभ्यपुंसामि वामस्यभिक्षयस्त्रे मधोरे न्याधिया वा महाजस्याम उभयामगृहेतोऽ देवायत्वाधिमित्रे अनभ्येभ्यस्त पितः पायभिष्मगम् शिवेऽभिरद्यपरिमाहि नागयम् हिरण्यजपस्तु पिता जलव्यमायम् नाभिषकम् सजीशता उपयामहेतासि देवायत्वासमित्रे हिरण्यपाणिभोदये सिता नमाये स चेत्ता देवतापदम् उपयामहितासि देवायत्वासमित्रे धर्माजगप्रदक्षा बृहदक्षे नृहस्पति सुदस्य जयुन्दोपदः पत्रे वन्दम् गृहम् गृह्णाम्यग्ने सोमम् पिबस्मा हरिहार्य जना हर्यता वज्रस्य भक्ता कृष्णेतावस्य देदेवमस्य शस्तोक्षस्य हरिमन्तम् गृहम् गृह्णाति हरेश्व हर्या धाना सहसोमारिन्द्रा यस्व अग्रायोगुम् शिवसा सुमार्जमिषञ्चनः हरे माधस्वदुच्छुना यामगृहेतोस्यग्नये तेजस्पद एष देयानिग्नये तेजस्पदे दे दे उत्तिष्ठन् नोजसा सह मित्वा क्षिप्रे अवेपयः सोमविन्द्रचमोऽसुताम् उपयामगृहेदोषेन्द्रायत्तौजस्पद एष देयोन्द्रायत्तौजस्पदे शरणिर्विष्पदर्शदाब्जो दुष्कृतशिशोर्या जस्पते आप्याय समजन्दमसामविष्माभिरोधिः भवानः समः एव स्तेजे पूर्वतलामदस्य सह अस्माभिनपरिलक्ष्या भूतो मेयन्विये अपरे पश्यान् दे त्वासाधयामि ज्यो जष्कृतम् त्वासाधयामि ज्यो दर्विदम् त्वासाधयामि भास्पतेन् त्वासाधयामि ज्वलन्तेन् त्वासाधयामि मल्मनाभन्तेन् त्वासाधयामि दीप्यमानान् त्वासाधयामि लोचमानान् त्वासाधयामि निजस्रान् त्वासाधयामि बृहज्जोलिषम् त्वा साधयामि बोधयन्तेन् त्वासाधयामि व्याघ्रतेन् त्वासाधयामि प्रयासा यस्वाहा यासा यस्वाहायासायस्वाहा शय्यासा यस्वाहाय स्वाहा वयासा यस्वाहा सृजे स्वाहा शोकाय न्तानेन भवै यज्ञा रुद्रङ्गम् नामहृदयेन हृदयेन रुद्राङ्गमभिधेन सर्वम् मदस्ताभ्याम् महादेव मन्तः पार्श्वे नकम् शिङ्गेन गोश्याभ्याम् आदिष्ठत्र हन्त ब्रह्मणा हरे हर्वाचेनकम् सुवाणोतु मग्नुना षोडशिल एष वे यो निन्द्राय त्वा षोडशिने महता प्रतिघट्टसमृशीनाम् च स्तुतेरुपयज्ञ मानुषाणाम् प्रयामि दोषेन्द्राय ट्वा षोडशिल एन्द्राय द्वाषोडशिने विशोप इन्द्र देशविक्षसृष्टमागहि यच्छास्मै शर्म सप्रसाः उपयाम् गृहे दोषिरेन्द्राय द्वाषो रशिन एष देयो निन्द्राय द्वाषो रशिने महागम्यन्द्रो वज्रपाहष्वशे जन्म यच्छतु तस्य नाम खवा कलौ सहन्तु पात्मानय्योऽस्मान् वेष्टे उपयाम् गृहे लो गेन्द्राय त्वाषो रचिल येषिने सजोषायम् जयिषत्रोगम्भयम् कृतो नः उभयामृहीन्द्रायत्वाषोडशिनयो निरन्द्रायत्वाषोडशिने उदित्यम् जातवे रसम् दैवम् वहन्ति केतवः विश्वायसूयम् चित्रम् देवानामुदगादने पञ्चक्षर्मित्रस्य वरुणस्याग्नेः आप्राद्यावापृथिरे अन्तरक्षकम् सूर्य आत्मा नगर सृषश्च अग्ने मय सुपसाराय अस्मान् विश्वानि देववयिनानि विद्वान् योऽध्यस्मद्युः राण मे न भोगिष्ठान्ते नव मुक्तिम् विधेम इव गुक्लू वो रूपम्यई विमयसा वयह विश्विष्ठे अ एतत् अग्नेलाधरैमच्युदन्तश्च पथा न यत्तश्च पथालक्ष्म्यालयम् पैतृमत्यगुम् सुधातुलक्ष्मणम् लोके सीतनः सर्गः कृतम् धाता राजस्य पिते रञ्जसन्ता प्रजापजन् शिवजन्म अग्निः विष्णः प्रजयातगम् रमो यधमाना यद्रविनन्दधातु समेन्द्रः मनसा ने शिवाभ्यस्तकम् सर्गस्वस्त्या सम्ब्रह्मणायम् सुमत्याशापयशासन्महिमनशासकम् शिवेन परिवक्रणोत्तनुमाष्टतनुभो यद्विलिष्टम् यदद्य प्रयति यज्ञे अस्मिन्नग्ने होतारमृणेमीह यज्ञमुपयाः सदनमकर्म ये जुषाणाः सः पक्विपागम् सश्च विश्वेऽस्मे धत्तवस वो वसूनि ज्ञानाव देवान् वहमाना भरमाना हवेकम् शिवसम् धर्मन्ति ममातिष्ठता नो यज्ञयज्ञम् गच्छ यज्ञपदिम् गच्छ स्वाञ्जोऽम् गच्छस्वाहैषते यज्ञो यज्ञपते सहसोरोक्तवागस्वीर स्वाहा देवागातुमिदो गातुम् मित्त्वा गातुमिदमनधस्पत इमन्दो वाजस्वाहा वाते ेदम्भेराष्टे अस्तु बाधस्पद्वेजम्बराजे न प्रभमु वरुणस्य पाशोद्य र्यन्तमे दमे समिधैतमुच्चरण्ये समुद्रे देहृदयमप्सन्तः सन्तापि सन्तोषधेरुतापो यज्ञस्य यज्ञपते हविर्भिः के नमो वाकेऽपिधेवावपृथनिचङ्कृतमेतमुरानो देवस्मै भूयासुर्योस्मान् च वयन्तुष्मो देवेनापयेषर्भस्तम् भस्सुप्रीठ सुकृतो प्रदितो वरुणस्य वाचः प्रत्यस्त्व वरुणस्य वाचयेधोमहि समितसितेजो षितेजो मयुधेत्यपो अन्वचारुषकुं रसेण समचक्ष्महि पयस्वाकुम् अग्रहागमन्दम् मासगम् सृजवच्चसा जस्त्वा हृदा वीरिना जातवेदो यशो अस्मादुधेः प्रजाभिलग्ने अपुतत्वमस्याम् यस्मै त्वकम् सुकृते जातवेदुलोकमग्ने प्रणवस्योनम् अश्विनकम् स पुत्रिणम् वीरवन्तम् गोमन्तकम् भयम् नशते स्वस्ते त्वे सुपुत्र शोदृत्रम् कामकातयः मुक्स बुक्थे सो मेन्द्रम् ममातनेशे नीथे मघवानगम् सुतासः यदेकम् सबाधः पितरण्डपुत्राः समानरक्षा अवसे हवन्ते अग्ने रसेन तेजसा जातवेदोऽलोचसेशोहातनः अपो अन्वचारिषकुं रसेन समसक्ष्महे पयस्वागुम् अग्नागमन्तम् मासगम् सुजवत्क्र वासु वासु वसु पसुपते रामस्यग्ने वसु श्यामहे तु वसुपतिम् वसो नामभिप्रमन्दे हृदयेषु राजन् प्रजावाजम् वाजयन्तो जये माश्यामत्सृतेर्मत्यानाम् त्वामग्ने वाचा तमम् विप्रावर्धन्ति सुष्ठुतम् स अयम् न आज्ञणा द्वयम् पृथक् पुरये तु प्रभिन्दन् अयम् शत्रो वाञ्जयतु चयम् वाचयदवाजसाधौ अग्निनाग्नः समेध्यते अयज्ञापतिर्युवा हव्यवाद्यस्य सदा सखा गो <usuk> ओ